प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानद्भाजा भवाद् भव्यभूतेश्वरं पूतनाथं शिवं शङ्करं प्रभु प्राणनाथं विभु विश्वना जाल महाकालकालम् गणेशादिपाल जटा जूट गङ्गो रङ्गं शङ्करम् शम्भुमिषा Bhun Vishwanatham Madama karam mandanam mandayan शातरं तम् महामोहमारं शिवं शङ्करं शम्भुमीशानं रे प्रभुं प्राणनाथं विभुं विश्वनाथ तटादोधिवासं महाटाटहासं महापापनाशं सदा सुप्रकाशं गिरिशं गणेशं सुरेशं महेशं शिवं शङ्करं ीडे प्रभुं प्राणनाथं विभुं विश्वना हं गिरौ संस्थितं सर्वदा सेह पर ब्रह्म ब्रह्मादिभिर् वन्द्यमानं शिवं शङ्करं शम्भुमेशा <स्थाँग> कपालं त्रिशूलं कराभ्यां दधानं पदा दे प्रभुं प्राणनाथं विभुं विश्वनाथम् शरत् चन्द्रगात्रम् पात्रम् त्रिनेत्रम् पवित्रम् धनेशस्य मित्रम् अपर्णा कलत्रम् चरित्रं विचित्रम् शिवं शङ्करम् शम्भुमीशाडे प्रभुम् पिता भुविहारं भवं वेदसारं सदा निर्विकारं स्मशाने वसन्तं मनोजं दहन्तं शिवं शङ्करं शम्भुमीशा प्रभु प्राणनाथं विभूमेश्वनाथम् स्तवं यः प्रभाते नर पाणे पठेत् सर्वदार्गभावानुरत्तः सपुत्रं धनं धान मित्रं गलत्रं समासाद्य मोक्षं प्रयाति प्रभु प्रा vibhum vishvanatham vibhum vishvanatham vibhum vishvanath